अस्मायुधप्रसवसे धुराय प्रयोदहम् यस्तो मह्मालीनाय द्वितीयमाया द्वेगमवोऽहमिन्द्राय ब्रह्मा निरातमा अस्मायुधप्रजा इव प्रयम् शिवराम्याम् घोषम् बाधे सुभृति इन्द्राय हृदा मनसामनीरा प्रत्ना जपत्येधियो मर्जयन्त अस्मायु सत्यमुपमम् स्वर्षाम्भराम् सुभृत्तिभिः सूरिम्बा वृदद्भिः अस्मायु दस्तो मम् संयेन विरचन्दतष्टे वतत्सीनाय गिरश्च गिर्वाजे सुभृत्तीन्द्राय विश्वमिन्बम् मे धीराय अस्माजि दु सप्ति विवश्रमस्येन्द्रायार्कम् जिह्वा आसमञ्जे एलम् दानौक सम्बन्ध्ये पुराम्भोक्तस्रावसम् धर्माणम् अस्माभिष्टा दक्षद्भद्रम् स्वम् सुगा अमृणाय वृत्तस्य चिद्विदधे न मर्ना तुजन्ये अस्येतु मातुः समानेषु सद्यो महः पितुम्बपि भुजायद्विष्टः पचतम् सही यान् विध्यद्वराहम् विरोहद्धिमस्ता परिद्या वा पृथिवीजभ्रमुर्मीलास्य ते माहिमानम् वरिष्ठः अस्ये देव प्रदीरिते महितम् दिवस्पृथिव्या पर्यन्तरिक्षात् स्वरालिङ्ग्रोदमाविश्वगोत्रस्वनिरमत्तोपवक्षेरणाय अस्ये देव समासा सुषन्तम् मृगश्च वज्रेण वृत्तमिन्द्राः प्राणावनीरमुञ्चदभिश्रवो रावने सेताः अस्येतद्वेकदानन्दसिन्धवीयद्वज्रेण सीमयच्छत् ईशानगद्गासुतसस्यम् दुर्बीत ये गाधम् दुर्पणि क्तः अस्माय दुप्रभातु जातो वृत्रा जलज्रवीषान्येधाः रश्चेष्यन्नन्नाहम् समाम् च लध्यै अस्येदुः प्रभ्रूहि पूर्व्यानि तुलस्य कर्माणि नव्यामुक्थै युधे यदिष्णानः यूधा नियमानोनि ऋगादिशत्रून् अस्येदुभिया गिरजश्च दृढाद्या वा भूमा जनस्तु को वेन जोगो बनभूनिम् सद्यो भूवद्भीर्याय नो धाः अस्मायुधृत्य समुदाये कामे को यद्भे भूरे संसूर्ये वस्तुधानम् सौवस्ये सुक्ष्मीमावदिन्द्राः देवादेहारियोजनासु भृत्तेन्द्रब्रह्मा नितमासो अक्रन् एषो विश्वमेश सन्ध्यम् प्रातर्मक्षूध्यापसुज्जगम् यात् अपि वातय यमनाः ओ हरिः ओमन् ओम। महेशपसानाय सोषमाङ्गोढम् गर्वणसे अङ्गिरस्वत् सुरृति अदरिज्ञयाय मार्कन्न रे विश्रूताय प्रभो महेमहि नमो भरद्भमाङ्गोष्ठ्यम् समसानाय साम येनाः पूर्वे वितरः पदज्ञार्थम् नो अङ्गीरसोकाविन्दन् इन्द्रस्याङ्गीरसाम् चेष्टौ विदत्सरमातनाया यथासिम् बृहस्पतिर्भिनद्रिम् विनग्रा स वस्त्रियाभिर्वा वसम् धनरा सष्टुभासस्तु भा सप्तविप्रैः स्वरेणाद्रिम् सर्योद्वैः सरण्यभिः परिगमिन्द्रचक्रबलम् रवेणदरज्योदसद्वैः अंगीरो नो अङ्गीरोभिर्दस्त्वमिवसा सूर्येण गोभिरुन्धाः विभूम्या अप्रथये जमुप नमस्तभायः तदप्रयक्षतममस्य कर्म रस्मस्य चारूतमस्ति दंसाः उपः परे यदुपराभिन् मन्मध्वन्नसो नद्या अस्त्रतस्रः योचासनी अयास्यस्तममानेऽभिरक्तैः रमे मन्नधारयत्रो दासी सुदंसाः स नाम् परिभूमा विरूपे पुनर्भुवा युवतीस्वेभिरेवैः कृष्णेऽभिरक्तोषारुषद् धर्मपुर्भिराचारतो अन्यान्या समे वि सख्याम् स्व पश्यमानः सोमर्दासभाः आमासु चिद्दधिषे भगवमन्दः पयः कृष्णासुरु सद्रोहीनेषु सनात्सनीयावनीयक्षम्ये अमृताः सहोऽ पुरुसरस्राजनयोगपत्नी द्रुमस्यम् दिश्वसारो अक्रयानम् यु नमसानव्यो अर्पेऽन्वा सूयवो मदयो दस्मद्रुः पतिर्न पत्नीरुषतीसन्तम् सुसन्ति त्वा तव सामन्मनीषा स न देवतरा योगभस्तौ न क्षीयन् तेनोपादस्यन्ति तस्म ्रतोवाधीरस्य क्षासृी वस्तवा न श्रीभिः स नायते गोदामयन्द्रणव्यमत क्षद्ब्रह्मा ह नियोजनाय सुनीधाय रस्तवता रोधा प्रातर्मक्षूधिया वा द्रुव्यगृह्यात् हाग्निन्द्रयो हसृष्मेवायज्ञानपृथिवी अमेधाः ये विश्वायिरयस्तिरब्दः किरणा नैयन् आयधरे इन्द्रविव्रतावेरा देवज्रम् यापोऽधात् हर्यतक्रतो अमित्रात् पुर यष्णादि पुरुहृतभूर्तेः त्वम् हर्तयिन्द्र विष्णुरेतान्तु भृक्षा नर्यस्त्वम् षाट् त्वम् कृष्णम् वृजने वृक्षाणौ यो मे कुत्सायद्युमदेसदाहन् त्वम् हर्तयदिन्द्रजो दीः सखा भृत्रम् यद्भज्रन्मृढकर्मन् यच्छपराचेर्विदस्यो यो नावम् हिन्दारे रम् दृढस्य जन्मर्ता नाम दृष्टौ या अस्मदा काष्ठा अर्वा देव वज्रं स्वीय मित्रान् त्वाम् हिन्द्रान्न स्वधामय्यमासामर्यभूतिर्वाजेश्वदसा भूत् त्वम् हिन्द्र सप्तयोध्यान्पुरो वज्रन्पुरगुत्साय लब्दः गणेर्नय सुरादेव सावर्घम् घोराः जन्मदेव पूरवेरः त्वम् ज्ञान इन्द्रदेव चित्रामि षमा भो न पीपयः परिद्वन् ोरप्रत्यस्मभ्यम् जम् यत्मनमोऽन्न विश्वधक्षरद्ध्यै अपारिदैन्द्रोद मेभिर्ब्रह्माण्योत्ता नमासाहरिभ्या सुम्भाजमाभरान प्रातरुमक्षूसुज्ज पृष्टे शब्धाय सुमेय वेधसेनोधस्त्व वृत्तिम् प्रभारा मरुद्भ्याः अपो नीरो मनानुगस्योगिरः समञ्जे विगते श्वाभुवाः ते जज्ञिरे दिवरश्वा च वृक्षणो रुद्रस्य मर्या असूरा अरेपसाः आवकाशस्तु च यः सूर्यायिवसत्त्वा नोनद्रत्सिनो धोनवर्पसः युवा नो रुद्रा अयरावोघनो वक्षरध्वे गावः पर्वता इव दृढा यद्यशालानि पार्थिवा प्रत्या वयम् देव्याणि मद्मनाः चेत्रैरञ्जगर्वपूर्वे व्यञ्जते वक्षः स्वरुक्मा तीये दिने शुभे ंसेश्वम् निमे मिक्षुरुष्टयः साकम् यज्ञिरे स्वधया दिवो नराः ईशानकृतोऽधुना यो निसाद सोपाताः विद्युदस्तवेषीभिरक्रत ब्रुभञ्जो धिव्या निधूत यो भूमिम् तिन्वन् निय सा परिद्रयः तिन्वन्त्यपो अत्यान्नमिहे विना यन्ति वाजिनमुत्सङ्गन्ति माजिनश्चित्रभा नवो गिरजो नः स्वतावसो न भुष्यताः मृगायैव भोजन्वन्ती मञ्जवः रोदसी आव गता गणस्य यो दृढादस्तु रास्तवी मञ्जवः आबन्धुरेश्व सदा भिद्युन्नदस्थौ मरुतो रथे शुभः विश्वमे दशो ऋजिभिस्समागतस्तवेभिर्विनप्सिनाः यिषम् गतिरेकभक्त्यो रन्तः ऋयेभिधमुज्जिभ्यन्तापथ्यो ओ न स्वसृतो धृभ्युतो मरुतोऽभ्याजाधृष्टयः घृगम् पावकम् वनिनं वितर्षणिम् रुद्रस्य सोनुम् भवसा गृणीवसि गृहस्तुरम् तमसम् मारुदङ्गणेशिणम् मृगाणम् सत्तव श्रियेस्तव सा जनाम् अतितस्थौ भरते धारी शर्कृत्यम् मरुद प्रत्सु दुष्टरम् जुमन्तम् सुष्मम् भगवत्सु धत्तरस्मृतमुक्त्यम् विश्वदर्शनीम् तोकम् पुष्ट्ये मत नयम् सतम् हिमाः स्थिरम् सहस्रिणम् सचिनम् सुशुभांसम् प्रातरुमक्षूज्ज्याश्वानतायम्बुभाचन्तम् नमो वहन्तम् राधीराः पतेरणपत्नासीदन्निस्तेज चत्वाः ऋदस्य देवा अलो व्रता गर्भरिष्ट ज्योर्णभूम वर्धन् देवाभः अण्श्च मृदस्य यो नागर्भे सुजातम् पुत्रिर्न रण्वाक्षितिर्न पृच्छे गिरीर्न भुज्मक्षोदो न शम्भो प्रत्यो राज्वन् स्वर्ग प्रदत्तस्मिन् धर्मक्षोदीम् वरादे जामिः सिन्धूनाम् राते हस्वस्रामि ध्याह्न ंसो नत्वा च तिष्ठो विषामोषद्भुज सोमो न वेधातः पशुन्नसि स्वाहार्नूरो न सङ्गृगायम् न प्राणो नित्यो न सूनो तत्पान भोर्निर्वो न धेनस्तु निर्विभावाधारक्षे ममो बो न रण्डोज भो न भक्वो जय सा जनास्तु भा विक्षुक्रस्तो वाजीरप्रीतोभयो दधाति दुरो सो नित्यो जाये भयो विश्वस्मै चित्रो जनभ्रा शेदो न विक्षुरथो न रुक्मेषः समत्सु सेनेव दृष्टा मन्दधाश्चेशप्रतीगा यमोह यमो जनि त्वम् जारः कनीनाम्ब तर्जनीनाम् न क्षोधप्रणीचीरैरार्णवम् जगाभस्वा भद्रिजीके अनेषु यायर्मक्तेषु मित्रो व्रीणीते दे सृष्टिम् राजेवाजर्यम् क्षेमो न साधुक्रधोर्ण भद्रो भुवस्मधीरोदाहव्यट हस्ते दधानो नम्णामिस्वानि मे देवान्धा गुहा निषीदन् इदम् देवत्र नराजि अङ्गायत्तष्टाम् मन्त्रान् अशंसन् अजोलक्षाम् दाधरा पृथिवीम् हस्तम् भद्याम् मन्त्रेभिस्तैः प्रियापदानि पश्वानिपाश्वायोरग्ने गुहागुहङ्गाः यये चिकेतगुहा भवन्तमायः ससा धधाराः मृतस्य दिये चिरम् त्रितासपम् इद्मसो निःप्रभास्मै द्वियो वीरुत्सुधन् महेतो न प्रजा उत प्रसोष्वन्तः चित्तेरपा मे विश्वायः सद्मे वधीराः सम्माया चक्रुः श्रीरन्मपस्थाद्दिवम्भुरन्नस्थातश्चरदा मत्तोऽन्योऽगदेषामेको विश्वेषाम् भवद्देवो देवानाम् महित्वा श्वे कृतम् ऋतम् दसृष्ठाद्यद्देव जीवो जनिष्ठाः भजन्त विश्वे देवत्वम् नाम ऋतम् समन्त अमृतमेवैः ऋतस्य प्रेगा ऋतस्य धीजर्विश्वायर्विश्वे अपांसिचक्रुः यस्तोभ्यन्दसाद्यो वादेशिक्षा तस्मै लिखित्वा यस्ता गोदायिणमनो न पत्ये स जिन्वासाम् पतीरयीना यच्छन्तरे तस्मै अर्दक्षैर्मूः विदर्नपुत्राकृतम् दोषणने अस्य सासम् तुलासाः गिरायार्वात्पुरः पुरुषः पिबेसनाकांस्त्रभिर्दमो नाः सुक्त्वा भुषो नकारः पप्रासाभीचीयोज्योतीः परिप्रजा दशकृत्वा बभू अदृप्तो अग्निर्बीजानन् धन्न गो नाम् स्वात्मापितूना जनेन सेवा आभूयस्तम् मध्येन शक्तो रन्वोदो रोने पुत्रो जातो रन्वोदो रोने वादीन प्रीतो वि सोऽपिदारीत् ो यदत्वेनर्दे भत्वा विस्वारम् यस्याः न कृष्टचेता ग्रामीणम् निरभ्यो यदेभ्यः सृष्टिम् च कर्ता तत्तु देदम् सो यदहम् समानेन्द्रभिर्युक्तो विपेदपांसि गुरो न चारो विभावोष्टः सञ्ज्ञाकरोपश्चिके ददस्मै नावहन्तो दुरोजृन् भन्नवन्त विश्वे स्वा अदृशीगे मनेम पूर्णीरर्यो मनीषा अग्निः सुशोकोऽ विश्वार्ण्यस्य आदेव्यानि मृदाचि जित्वा नामानोषस्य जनस्य जन्म गर्भो यो अपाङ्गर्भो वनानाम् अद्रौ जलस्मा अन्तर्दूर्वे विशान्न विश्व अमृत स्वाधीः स हि क्षमा वाग्निरायीनान्द सद्यो अस्मा सूक्तैः एताजीकृ भूमानि वायि देवानाम् जन्ममर्तांश्च विद्वान् धान्यम् पूर्मेः क्षपो विरोपास्तादश्चरता मृतप्रवीतम् अहाधिगोधास्वा अन्विडक्र क्रण्वन् विष्वान्यपाम्सि सत्या गोसम्प्रशस्तिम् वरेफलम् तविश्वे बलिम् स्वर्मः निर्ताः पुरुत्रा सा वर्यम् वितन्नयम् प्रेन् विवेदो भरन्त साधु न गृध्रुहस्ते वसूरो जाते भीमस्त्वेदः समत्सु उपाप्रयिङ्गन्नुषे रुदन् कम्पतिन्न ृढापितरो नैरद्रिम् मृजन्नङ्गीरसौरभेन चक्रर्दिवो बृहतो पातुमस्मे अहस्तर्भिविदमुस्राः मृतम् धनयन् हस्तधीतिमादिधनुजोदिष्मो गो विभृत्राः दृश्यन्ते रपसायम् गच्छा एव जन्म प्रयासा मधयन्तीद्यम् बिभृता मातरि स्मा गृहे गृहे श्वेतोजेन भूत् आधीम् प्राज्ञेन सहीयसे स चा सन्नाधूत्या अमृढ वा मने यत्पित्र ये प्रसङ्गिवेकरवत्सर प्रसन्नश्चित्पान् श्रजलस्ता सृषदाुमस्मै स्वाजाम् देवो दुहित हृदृ सिन्धान् स्वयस्ताभ्यन्तमा विभाति नमो वा दासाधु सतो अनुद्योन् बन्धो अग्ने वयो अस्य अग्निम् विश्वा अभिवृक्षः सजन्ते समुद्रम् न श्रवदः सप्तजक्मीः रामिभिर्मिजी देवयो नो विदा देवेण प्रमादिम् जि गत्वान् कालजिरे भ्रमचिन्ते जानच्छुतिरे जो निषिक्तम् जौरभीके अग्निः श्रद्धमनभ्यम् जानाम् मनो न योध्वनः सत्ययेत्येकः सत् नासु रोपस्म ईशे राजा नाम वरु नासु पाणि गोषु प्रियमृ संरक्षमाणा मानो अग्ने सख्या विद्या प्रमर शिक्षा कवे सन् न भो नरूपञ्जारिमामीनातिपुरादस्याः स्वस्म दस्तरहस्ते दधा नो नर्या पुरूणि अग्निर्भोवत्र युपदीरयीनात्रा नो अमृता निविश्वा अससे वासं वरिबन्दन् यच्छन्तो विश्वे अमृता अमूराः श्रमयोः पदम् योधियन्तास्तः पदेव रमेशात्मग्नेः निस्रो यदग्ने सरदस्त्वा विच्छुतिम् हृदयेन सुजायस्तपर्यामादे यज्ञियान् सूदयन्त धन्वासुजाताः आलोदी बृहती वे वेदानाप्रकृत्रियायभृ यज्ञियातः ये पते न्नर्तोपरमेतश्चिवांसम् सञ्चारानामुपासीरन्नभिज्ञुपत्नी मन्दो नमस्य नमस्य रिक्वांसः कण्डः कण्ड तस्पाः सखासख्यन्निमिष रक्षमाणाः त्रिस्रप्त यद्दुष्ट्या ऋे यत्पदा वीदण्डीता जिज्ञा सह देवी रक्षन्ते अमृतम् सजोडा भोन्त्यस्थात्रेद्वाग्ने वयना निक्षितीनां नुरुधो दीपसे धाः अन्तर्विद्वानध्वनो देवजानातन्द्रो धूतो अभवो हविर्वाणे स्वाद्यो सप्त शक्ति राजो दुरो आचारन् विगद्गव्यम् शर्वादृढे नानुकम् मा नु शीभो च देविट् आये विश्वा स्वकारी तस्य खण्डानासो अमृधत्ताय घातम् पृथिवी विदस्ते माता पुत्रैरतिभाय सेवे ीन्द्रिधष्टारो मस्मिन् दिगो या अन् अधक्षरन्दिन्धा वो नृष्टा प्रणीते रग्ने अरुषे रजानन् <coughs> गर्नयः पितृवित्तोपयो सुप्रणीति श्रीयजुषोणसासोः सोऽनसीरजे धन्न प्रे धानोः देव विधतो विदारी दे। देवोनयस्य पिता सत्यमन् मा क्रत्वा निवाति वृजना निविश्वा प्रशस्तो अम जन्म सत्य आत्मेव सेवो लिधिरायोऽभूत् देवोनयः पृथिवीम् पिष्टधायामु हितमित्रो न पुरः सदस्य मदो न वीरा न मद्यापति दृष्टे वनारी तन्त्वा न रोदमहानित्याभिद्धाग्ने सुयम् दक्षिति शुद्ध्रुवासु अधिज्ञम् न्यो यस्मिन् भवा विश्वायद्धरुणा वृक्षोग्ने मघवानास्त्यन्विशोरयो दतो विश्वमायोः े मवाजम् समिधेश्वर्यो भागम् देवे श्वेतुनाः कृतस्य हि भे नवसानास्मदोध्वे पेपयम् तर्तुभक्ताः परापतस्तु मतिम् भिक्षमाणाभिसिन्धवस्त्रमयासुम् रे अग्ने सुमतिम् भिक्षमाणाधिविश्रवो दधिक्रियादः नर्ता चक्ररुणतानिरोपे कृष्णम् मत्तां मन्नामरुणम् च सन्धोः याये मत्ताम् सुहृतोमघवानो भयम् च छाये भविस्वम्भुवानम् श्रीरक्षामप्रियाजी अन्तरिक्षम् ने अर्वे धीरे धीरान् बात्मोदाः ईशाला सप्तृवित्तस्य राजोऽपि सोदजः सदहीमानो एताग्न उचनिवेधो दृष्टानि सङ्गमनासे हृते च सर्ये म राजश्रुराजमन्मतेस्रवो देवभक्तम् दधानाः वप्रयन्तो अध्वरम् मन्त्रम् भोजे माग्मये आवे अस्मे च शृण्वते यस्मैहि तेषु पूर्गः सन्मालासु दृष्टिषु अरक्षद्दासु उत प्रो बन्तु झन्तमध्यहा जानि धनञ्जयो रणे रणे यस्य धूतो अशिक्ष जेषी हव्यानि वीतये यस्मत्कृनोष्यद्भरम् तमित्सु हव्यमङ्गिरस्तु देवम् सहसो यो जनाहुस्सु परिशिषम् ्यासुश्चन्द्रबीजये न यो बब्धिरश्च शृङ्गेरसश्च यजरग्नेजासि दूत्यम् स्वोतो वाज्यप्रयोभिपूर्वस्मादपरः स्वा अग्ने अस्तात् जुमस्वीयम् बृहदग्ने विवाससि चो देवप्समम् आद्यायुक्पान आसनी अचादे अन्दिरस्तमाग्नेधस्तम प्रियम् भोजेव ब्रह्म जानसि तस्य जामिर्जना नामेवो को दाश्वध्वरः कोह कस्मिन्नसि श्रिदः त्वम् जामिर्जनामग् आसिप्रियः सखा सखिभ्ययीड्याः जानो मित्रावरुणायजा देवाग्ने यक्षस्वन्दमम् आभुपे जर्मन सोवरा जभुपदग्ने सन्त मा कामानीषा पकेना जेख जेख गो वा यज्ञैः परिदक्षणम् तापके न वा ते मनसा दासेम ये यज्ञैहो दारेया दब्धस्तु पूर्व एता भवानः अभदान्त्वारो दासी विश्वमिन्वेया महेऽसौ मनसा जानसु विश्वान् रक्षसो दक्षज्ञे भवाय पजम्भरिभ्यामादित्यमस्मे चक्रमासुगाम्मे प्रजा वा ताव च सावह्नि रासा च भुवेर् च सत्सीहदेवैः देवीहोत्र मुतभोत्रय नत्र भोजिपायन्नर्जनि धर्मसूरा यथा विप्रस्य मनोजोऽहविर्भिर्देवा अयायः कविभिः कविः सन् जुक्पा सत्यतरत्वमध्याग्ने आज मन्द्रया युक्त्वा यजस्व तथादा देवाग्नैवास्मै देवदृष्ट्वाश्च देहामिनेगीः यो मर्त्येष्वृगार्गा बाहोदा यजिष्ठज तृणोति देवान् यो अध्वरेषु सन्ता मर्गा बाहो दातमो नमोऽभिराकृम् अग्निर्यद्वेर्म च देवान्सदा बोधा य मनसा यजाति स ए मर्यस्य साधम् मित्रो ुप्रसमन्ते भजन्ते निश उपब्रुवते भस्ममालीः स नो नृगाम् नृतामोलिजाताः अग्निर्गिरो महसा मे तु धीतिम् तना जये मघवा हस्तविमानप्रसूताय हृदयम् दमन्व ज्ञोतामे भरृता भा विप्रेभिरस्तोऽष्टजात मे वेदाः स एष जुम्नम् वृष्टिम् जातिजोषमादित्वा अभित्वा गोतामा गिरा जात मे दो वितर्षणे जुम्नेरभिप्रणो नमः मुत्वा गोदमो गिरारायस्तामो दुपश्यति जुम्नैरभिप्रणो नुमः तमु त्वा वाजसाद मम गिरस्वद्ध वामहे जुम्नैरभिप्रणो नुमः तमुत्वा वृत्रहन्त अभोज मरहो गला अग्नयेमधु मद्वचाः युम्नेरभिप्रणो नुमः हिरण्यजे सोरज सो विशाले भ्रजीवान शुचिभ्राजा पुष सोनवेरे धाय सरस्वतीरपुपो न सत्याः आदे सुपन्नामिनन्ताङ्गै कृष्णो नो नापः शिवाभिर्न स्पयामानाभिराघात्पदम् दिविहस्तनयन्त्यभ्रा यी मृदस्य पया सापिया नो नयन् मृदस्य पसिभिरजिष्टैः हर्यमामित्रो वरुणः परिध्मात्पदम् वृञ्जन्त्युपारस्य योनौ आग्ने वा यस्य कोमादयीसारः सहसो अस्मे देहि जातवे दोमभिः स्रवाः सयीशालोभृष्टविरग्निरीवेण्या गिरा नेवदस्मभ्यम् पूर्वणी गजीजिः क्षमो राजन्नुतद्मनाज्ञस्तो ऋतोषधाः स दिग्मजम्भरक्षसोदः प्रती नो अग्नभूतिभिर्गा यत्रश्चप्रभर्मणि विश्वासु धेतुवन्द्य आणो अग्नेरयम्भरतत्रासाहम्भरेण्यम् विश्वासु मृत्सु दुष्टरम् आनो अग्नेशु चेतुना रयम् विश्वायुपोषणम् माठिकन्धे हि जीवसे भूतास्तिमसो जषे वाचो गौतमाग्नये हरस्पतम् न युर्निराः यो नो अग्नेभिया सत्यन्ति दूरे पजेष्टरः अस्माकमिद्विधे भाव सहस्राक्षो विजर्षणि रग्नी रक्षाम् इत्राहितो मजिम् मले ब्रह्मा चकार वर्धानम् सभृष्ठवज्रन्नो ज सा पृथिव्यानिः सहिमच्चन्दनस्वराज्यम् सत्त्वामधृामधः सोमस्येनाभृदः सुतः येनावृत्तम् निरभ्यो जठन् धृष्णेन देव द्रोडियम् सरे सते रन्नम् हि देश मोहनो भृत्रम् जया अवोर्चन्दनस्वराज्यम् धीरिम् प्रभो ज्ञाधिभृत्रम् जयघनुर्जिवः सृजा मरुत्व जीवधन् जायिमा इन्द्रो वृत्रस्य रोध दस्तानम् वज्रेण हेलिकः अभिक्रम्या वा जिह्नेवः स्वर्मा योदयन्नच्चन्दनस्वराज्यम् अधियाहो निजिघ्र वज्रेण सदपर्वणा वन्दान इन्द्रो अन्धदस्य हिभ्यो गादमिच्छत्य चन्दनस्वराज्यम् इन्द्रजभ्य विर त्रिवृत्तम् वज्रिण्र्यम्भाजिनम् मृगन्तभ त्वम् भाजया वधीर चन्दनु स्वराज्यम् न्दनस्वराज्यम् सहस्रम् सागमच्चतपरिष्ठतिः शतैरमन्मानान मुलिन्द्राय ब्रह्माद्यतमच्चन्दनस्वराज्यम् इन्द्रो वृत्रस्य कविषीम् निरहन्सहसा सहा महत्तदस्य पुंस्यम् ृत्र धन्वाङ्गे हि यथा मही यधि स वृत्तम् मरुद्वाङ्गीर चन्दनुस्वराज्यम् न वेप सारतम् जरेन्द्रम् भृत्रो विदीभयत् अध्ययेन वज्र आयसहस्राभृष्टिरायता चन्दनस्वराज्यम् यद्वृत्तम् तव साहसनिं वज्रेण समयोधयः अलिविन्द्रजिघाम् कृतो जीविते बद्धेदवो चन्दनस्वराज्यम् अभीष्टने ते अध्यो यः ष्टाः चित्तव मन्यम इन्द्र मे विद्यते धिया चन्दनस्वराज्यम् नविन्याद धीमसीन्द्रम् दो गीचनः तस्मिन् ब्रह्ममुदक्रतुम् देवागोजाधुरचन्दनुस्वराज्यम् यामधर्वामनुष्पिता दच्छन्ति मन्त्रा तस्मिन् ब्रह्माणि पूर्वजेन्द्र उत्सवद्मता चन्दन स्वराज्यम् भद्रह्म अविवादयः ओ हरि ओन्द्रोमदाय वृधे दे। सभासेव नेः हस्वादिषु ते मध्ये हवामहे समाजेषु प्रणो अधिर भूरि वदाधिः अधिरभ्रस्ता दृशाय जामानाय चक्षति सम्भते भूरि देवसुलीरात आजयो धृष्टवे धीयते धा यक्ष्वदच्युताहरेकम्भनष्टम्बसू दधोऽस्मासूदधः धृत्वा महाकासम् भीमहावावृधे समाह श्रिहरिष्वभूपा हरीवाङ् अष्टयोर्मज्रमायसम् आवप्रोपा ्रजो पद्मधेरोचनादि नत्वा वा कश्चन न जातो न च निष्यते दिविश्वम् वक्षिता यो अर्यो मर्त भोजम्पनाददादिदासुषे इन्द्रो अस्मभ्यम् रक्षतु विभाजाभूनि देवसो भक्षीयतमराधसः देहि नो दुर्जुषा गवामृजु क्रतुः सङ्ग्रेभाय पुरोसतो भाजा हस्त्यावसूराजा भार मादस्व सुते स च समासे दूरराधासे विद्मायित्वा पुरो वसुमुपगामान् सिद्महे नोदिताभावा एते च इन्द्रयन्तभो विश्वम् पृष्टन्ति वार्यम् अन्तर्हिच्छो जना मर्यो वेदो अजा सुन्तेजा वे वेद आभार उपो महे गिरोमघमन्मादधारिव जानस्तु नृदापदष्टया सयुज्यो जामिन्द्रदेहरी पक्षण्णमी मदन्तश्च प्रियाधूषण आस्तोषस्वभाविप्राणविष्टजा मतीयोजान्विन्द्रदेहरी सुसन्दृतम् त्वाभयम् अघावन्वन्द्विशीमहि प्रणोणम् पूर्णवन्धुरस्तुतोजा शिवसाम् अनुयोधान्विन्द्रदेहरी घातम् मृगा नम्रसमधिष्ठादि गोविदम् यः पात्रम् हारियोधरम् भोर्णमिन्द्रजिकेरेत्मिन्द्रेहरी युक्तस्ते अस्तु दक्षिणबुधव्यस्य सक्रतो येन जायामुपप्रियाम् मन्धानो जाष्यन्द्रो योजात्मिन्द्रेहरी युवद्वीते ब्रह्मणा केशिनाहलीप्रयासो नूर्वान् वज्रम् समुपमत्या अश्वापतिप्रथमो गोटो गच्छति सुप्रावीरन्द्राभोधिः मित्रे न क्षमसो नाभीयसा सिन्धुमापो यथा पापो नदेवीरुपयन्ति भोत्रिया ममः पश्यन्ति वितर तम् यथा रजाः राचेर्देवासः प्रणायन्ति ते ब्रह्म प्रियम् दोषयन्ते भरायीव ्वजो रदथा उच्छा अमजो यः श्रोगामिधुराजातपर्यताः असयीयत्वार्यजापादाय सम्पदे आतङ्गीराः प्रथमम् दधिरेपजाग्नायः सञ्जातेषु कृत्यया सर्वम् प्रमे समविन्दम् तभोज नमस्वान्तम् गोमन्तमापुन्दराः यज्ञेन सर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपवे न आजाने आगाजदुशना जा काव्यस्त जायमस्य जातममृतम् यामे बर्हिर्वाय स्वपत्याय विज्यते को मा स्वी ग्रावायत्र पदाधिकारुरुख्या हस्तस्य दिन्द्रो अभिनितेरो रञ्जति ओ